ॐ परमात्मने नमः श्रीजगदम्बिकायै नमः अथ देवी भागवते महापुराणे सप्तमस्कन्धे त्रिंशोऽध्याय वस उवाच तत सेतो नेशे हिमाचल तटाश्रयः माया बीजपाशक्ता तपश्चेरु समाहितः ध्यायताम् दर्भाम् शक्तिम् लक्षवर्षाण्यभुन्नृप तदप्रसन्ना देवी सा प्रत्यक्षम् दर्शनन्दरो पाशाङ्कुचवरा भीति चतुर्बाहु श्रीलोचनाय करुणार्द सम्पूर्णा सच्चिदानन्दरूपिणी दृष्ट्वा ताम् सर्वजननीम् नमस्ते विश्वरूपायै वैश्वानरसमूर्तये तेजसरूपायै सूत्रात्मा वपुषे नमः यस्मिन् सर्वे लिङ्गदेह ओत्प्रोता व्यवस्थिता नमः प्राज्ञास्वरूपायै नमो व्याकृतमूर्तये नमः प्रत्यक्षरूपायै नमस्ते ब्रह्ममूर्तये नमस्ते सर्वरूपायै सर्वलक्ष्यात्मूर्तये इति स्तुत्वा जगद्धात्रीं भक्ति गद्गदया गिर प्रणेमुचरणाम्भोजम् दक्षाध्य मुनयो मलाह ततपसन्नास देवी प्रोवाच पिगभाषिणी वरं महाभाग वरदाहं सदा मताय तस्यास्तु वचनं श्रुत्वा हरविष्णुस्तनोमं तेषक्तिलाभं च बव्रीरे नृपसमये दक्षोथ पुनरप्याहे जन्म देवी कुले मम भवेत्तवाम्बेनाहं कृतकृत्यो भवेति शपं ध्यानं तथा पूजां स्थानानि विविधानि च परमे परमेशानि स्वमुखेनैव केवलम् देवी उवाच मत् शक्तोमाना च दातावस्था दयो। द्वयोः नैतादृशे प्रकर्तव्यो मे प्राधे कदाचन अधुना मत्कृपालेशात् शरीरे स्वस्थता भविष्यति च ते शक्ति सद्गृहे क्षीरसागरे जनिष्यत ताभ्याम् प्राप्त प्राप्स्यतः प्रेरिते मया मायाबीजम् हि मन्द्रो मे मुख्यप्रियकरस्तर ध्यानम् विराष्टरूपं मे अथवा त्वत्पुर स्थितम् सच्चदानन्दरूपं वा स्थानं सर्वं जगन्म कृष्माभिः सर्वदा च अहं पूज्य ध्येया च सर्वदासवाच इत्युक्त्वा इत्युक्त्वा दधे देवि दे मणिद्वीपाधिवसिनि तश्चाद्यामुनयः सर्वे ब्रह्माण्डं पुनराययुः ब्रह्मणे सर्ववृत्तान्तं कथयामासुरधर हरो हरि च स्वस्तो स्वस्य कार्यक्षमो नृपे जातो परां व कृपया गर्वे न रहितौ तदा कदाचित् काले तु दक्षगे हे महाराज श्रीलोके अप्यु सवोद्भवत् देवा प्रमोदिता सर्वे पुष्पवृष्टिं जरे ने दुर्दुन्दुभयः सर्वे ने दुर्दुन्दुर्भयः स्वर्गे करकोणाहता नृपे मनस्यासन्नानि साधु नाम सरितो मार्गवाहिन्यः सुप्रभो भो मङ्गलायां तु जातायां जातं सर्वत्र मङ्गलम् तस्या नाम चक्रे सत्यत्वात् परसंविद स रोप्न शिवायथय तस्य शक्ति तु याभवत् सात्पन ज्वलने दग्धाय दैवयोगान्मनो नृप जन्मेवाच अनथ करमेतस्यै श्रावितं वचनम् मुने एतादृशम् कथं दग्धम् उताशने यन्नामस्मरणान् नृणाम् संसाराग्ने भयं दहि केन कर्म विफाकेन मनोदग्धम् तदेव हि शृणुराजन् पुरावृतं कारणम् कदाचित् दुर्वासा गतो जाम्बो नरेश्वरीं दशीं तत्रासौ माया बीजं चापसः सत्यप्रसन्ना देवे श्री निजकण्ठ गतां श्रयं भ्रमभ्रमादसंशैक्तं मकरन्दं मदाकुलं ददु प्रसाद भूतान्दाम् जग्राह शिरसा मुनिः चतुर् निर्गत्य तरसा व्योममार्गेण तापसमास यत्रास्ति दक्ष साक्षात् स्वति पिताय सन्दर्शानाथमम्बाय नाम च स्वति पदे पृष्ठो दक्षेण समुने मालिके च कस्यालौकिकी कथं लब्धाय कथं लब्धा त्वया नाथ दुर्लभुविमानवैः तच्छ्रुत्वा वचनं तस्य प्रोवाच श्रूयुते क्षणः देव्यः प्रसाद मथुरम् प्रेम गद्गदितान्तरः प्रार्थयामास धा मालं तमुनिंसती पिताय अदेयं शक्तिभक्ताय अस्ति श्रे इति बुद्ध्या सुता मालाम् मनवीत समर्पयत गृहीता शिरसा मालाय मनो न निजमन्दिरे आपिता शयनं यत्रे दम्पत्यो पशुकर्म ऋतो रात्रौ माला गन्धेन मोदितः अभवत् स महे तेन पापेन शङ्करे श्वे द्वेष मते दातो देव्यां सत्यं तथा नृपे राजन्तेनापराधेन तज्जन् ज्यो देह एव च सत्यायो वाग्निना दग्ध सति धर्मादिदृक्षया पुनश्च हिमवत्पृष्ठे प्रदुरासीत् सुतम्भः दह्यमाने सतिरे किं न करोत् शिवः प्राणाधिकारस्य तद्वियोगेन कातरः गतौच ततः परं तु यज्जातं मया वक्तुं न शक्यते त्रिलोक्ये प्रलयो दातः शिवकोपाग्निना वीरभद्र समुत्पन्नौ भज्रकाले गणान्वितः त्रिलोक्यानाश नोद्युक्तो वीरभद्रो यदा भवतः ब्रह्मादयस्तदा देवः शङ्करम् शरणम् ययुः ते सर्वस्वनाशेऽपि करुणानिरीश्वरः अभयम् दत्तवान् तेभ्यो बत्सवक्रेण तम् मनुम् अजीवयन् आत्मासु ततः खिन्नो महेश्वरः निवाचम्य रुधृशदुःखितः पश्यतां चिम्बह्नौ दह्यमानान्तु चित्कलां स्कन्धेप्यारोपयामास हासतीति वदन्धुः बभ्रामय भरं तु चित्तस्सन् नानाधेशेषु शङ्करहे तदा ब्रह्मादयो देव चिन्ता मा विष्णु तु तरय्या तत्र धनुद्यम्यमार्गणैः चिच्छेदा वयवासञ्च पचनेषु तत्रासीन् नानामूर्तिधरोहरः वाचत च ततो देवान् स्थने श्वेतेजती पर किंचन दुर्लभम निंगु पारंक स्थान श्वेतीकर्मी तंत्र प्रदिध्य मैया बीज विशेषतः इत्युक्त्वा शङ्कर तेषु स्थानेषु विरहतु वीर, करं निन्येन्द्रेष्ठे जपध्यान समाधिभिः मेज उवाच कानि स्थानानि तानि स्युः सिद्धपीठानि च नघे कति कानि तेषां च तत्र स्थितानां देवीनां नामानि च कृपाकर कृतार्थोऽहम् भवे येन तद्वदाशो महामुने वासवाच श्रीं राजन् प्रवक्ष्यामि देवि पीठानि साम्प्रतम् येषां श्रवेण मासरेण पापही नो भवेन्नः येषु च पीठेषु उपास्येयम् ऋद्धिकाङ्क्षिभिः भोतिकामैरभिध्येया तानि भक्ष्यामि तत्त्वतः वारणस्यां विषाराक्षि गौरी मुखनिवासिनि क्षेत्रे वैन विचारण्ये प्रोक्ता सा लिङ्गधारिणी तया ललिता प्रोक्ता कामुके गन्धमादने मानसे कमुदा प्रोक्ताय दक्षिणे चोत्तरे तथा विश्वकामा भगवती विश्वकामा प्रपूर्णी गोमान्ते गोमती देवि पन्दरे कामचारिणी मद चैत्र रथे जयन्ति हसिनापुरे गौरी प्रोक्ताय कन्यकुब्जे रम्भा मलयाचवे दारीठ संता देवी सन्मार्ग दायने मंदाहीमत पुष्टे गोकंडे भद्र कर्णिक बिल्व, बिल्व पत्रिग श्रीशैले माधवे प्रोक्ताय भद्राभद्रेश्वरे तथाय वराहे शैले तु जयाय कमलाय कमलालये रुद्राणि रुद्रकोट्यान्तु काली कालञ्जरे तथाय शालग्रामे महादेवी शिवलिङ्गे जलप्रियाय महालिङ्गे तु कपिलाय माकोटे मुकुटेश्वरि मायापुर्यां कुमारी स्यात् सन्तान् लुलिताम्बिकाय गयां मङ्गलाय प्रोक्ता विमला पुरुषोत्तमे द्राक्षी सहस्राक्षि हिरण्याक्षी महोत्फलाय विपाशायां ममोक्षी पाडलाय पुण्डरवर्धने नारायणे सुपार्श्वे तु श्रीकोटे रुद्रसुन्दरी विपुले विपुला देवी कल्याणी मलयाचले सया द्रा वीरातु हरे चन्द्रे तु चन्द्रिका रमणा रामतीर्थे यमुनाया मृगावती कोटवी कोटतीर्थे तु सुगन्धा माधवे वने गोदावर्यां त्रिधन गङ्गाद्वारे रतिप्रियाय शिवकुण्डे शुभानन्दाय देविका तटे, रक्ष्मिणी द्वार भजन्तु राधा वृन्दावने वने देवके मधुरायान्तु पाताले परमेश्वरे चित्रकूटे तथा सीता विन्ध्ये विन्ध्यादिवासिने करवीरे महालक्ष्मी उमा देवी विनायके आरोग्या वैद्यनाथे तु महाकाले महेश्वरी अभयेतु पर्वते मांडव्य नितम्भाव्यपर्वते पाण्डवे माण्डवी नाम पुरे माहेश्वरिपुरे चगलण्डे प्रचण्डातु चण्डिकामदकण्टके सोमेश्वरी वरारोहा प्रभासे पुष्करावती देवमाता सरस्वत्यां पारा भारा तति स्मृताय महालये महाभाग पयोज्ञां पिङ्गलेश्वरी सिंहि काकुतशौ शौचे तु काचिके तति शङ्करी सुभद्रा शोणसङ्गमे माता सिद्धवने लक्ष्मी अरङ्ग भरताश्रमे जालन्धरे तारा ताराकृष्किन्द पर्वते देवदारुवने दारुवने मेधा काश्मीर मण्डले भीमा देवी हिमा द्रोतुष्टिर्विश्वेश्वरे तुष्टिर्विश्वरे तथा कपाल मोचने शुद्धि माता कामावरोहे शङ्खोद्धारे तारा नाम धृति पिण्डारके तथा कदा चंद्रभागायाम, चन्द्रभागाय अच्छ अक्षोदे शिवधारिणे वीणायाम अमृता नाम ददर्याम् उर्वशी तथा औषधी चोत्तर कुरौ कुशद्वीपे कुशोदका मन्मथा हेमकुटे तु कुमुदे सत्यवादिने अश्वत्थे वन्दनी यातु निधिर्वै निधि वैश्रवणालये गायत्री वेद पार्वती शिवसन्निधौ देवलोके तथेन्द्राणि ब्रह्मास्येयु सरस्वती सूर्यबिम्बे प्रभा नामे मातॄणां नाम वैष्णवीमताय त्रिलोत्तमासु च त्रिलोत्त त्रिलोत्तमाय चित्ते ब्रह्मकलानामय शक्ति सर्वशरीरिणाम् इमान्यश्च भूज अच्च शतानि स्युः पीठानि जन्मे जये तत्सङ्ख्याकास्तदीशान्यो देवे च परिकीर्तिताः सज्जिव्यङ्गभूतानि पीठाधिकथितानि च अन्यान्यपि पी प्रसङ्गेन यानि मुख्यानि भूतले यस्मरे शृणयाद्वापि नामाष्ट नामाश्च शतमोत्तमम् सर्वपाप निर्मुक्तौ देवी लोकम् परं व्रजेत् एतेषु सर्वपीठेषु गचे जा सतर्पये च पिताधीन श्रद्धा विधाय कगविधान क्षमा जगद्रत्रीं जगदंबा कुत कुछ साम जान्य जन मे जय हैदि सर्वान् ्राह्मणान् भोजयेत् ततः सुवासिने कुमारिते बचुकादीन् तथा नृपे तस्मिन् क्षेत्रे स्थिता ये तु चाण्डाल्लाद्यापि प्रभो देवीरूपाः सर्वे पूजनीया ततो हि ते पतिग्रहादिकं सर्वं तेषु क्षेत्रेषु कुर्यान्मन्त्रस्य सत्तमः मायाबीसेन देवेशीं देवेशिम् पीता पीठाधिवासिनीम् उजेदनि सम्राजन् पुरश्चरणद्भवेत् पित्तशां न कुर्वीत् देवी भक्तिपरो नरः एवं कृते यात्रां श्रीदेव्या सहस कल पर्यत ब्रोक महत्रे वसंती सोपी देवी पुरे तथा लान भविन्क्तौन बह सिता साक्षातवा ी भयादीनि तत्र नैव भवन्ति हि वर्धते नित्यम् यथा पर्व निवारिधिः न तस्य दुर्लभम् किञ्चित् नामष्टपिनः कुचकृत्यो भवे नूनम् देवि भक्तिपरायणः न मन्ति देवतां वै देवी रूपो हि सत्स्मृतः सर्वथा पूज्यते देवैः किं किं पुनर्मनुजोत्तमहि सार्धकाले पठदेतम् नामष्टशतमोत्तमम् कृतास्ते प्रयान्ति परमां गतिम् इमानि मुक्तिक्षेत्राणि साक्षात् संविन्मयानि च सिद्धपीठानि राजेन्द्र संश्रयेमान्दर कृष्णं व्यक्त त्वया राजन् उक्तं सर्वं महे चतुः स्यात् रहस्याति रहस्यं च किं भूयः श्रोतुमिच्छसि इति श्रीमद्देवी भागवते महापुराणे चादुरस्यां संहितायां सप्तमस्कन्धे देवी पीठवर्णनं नाम त्रिंशोऽध्यायः श्रीजगदम्बिकायार्पणमस्तु